सप्तषष्टितमोऽध्यायः वैशम्पायन उवाच दिघस्तु क्षत्तारमिति ब्रुवाणो दर्पेण मत्तो धृतराष्ट्रस्य पुत्रः अवैक्षितप्रातिकामीं सभायामुवाच चैनम् परमार्यमध्ये दुर्योधन उवाच प्रातिकामीन्द्रौपदीमानयस्व न तेभयं विद्यते पाण्डवेभ्यः क्षत्ताह्ययम् विवदत्येव भीतो न चास्माकं वृद्धिकामः सदैव उवाच एवमुक्तः प्रातिकामीसूतः प्रायाच्छीघ्रम् राजवचो निशम्य प्रविश्य च स्वेव हि सिंहगोष्ठम् समासदन्महिषीं पाण्डवानाम् प्रातिकां युवाच युधिष्ठिरोद्यूतमदेन मत्तो दुर्योधनो द्रौपदि त्वामजेषीत् सा त्वम् कथं त्वेवं वदसि प्रातिकामिन् को हि दीव्येद्भार्यया राजपुत्रः मूढो राजाद्यूतमदेन मत्तो ह्यभून्नान्यत्कैतवमस्य किञ्चित् प्रातिकाम्युवाच यदा नाभूत्कैतवमन्यदस्य तदा देवीत्पाण्डवो जातशत्रुः यस्ताः पूर्वं भ्रातरस्तेन राज्ञा स्वयञ्चात्मा त्वमथो राजपुत्रि